पादपाठं मुञ्चामि त्वा हविषा जीवनायकम् अज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्यग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनं मुञ्चामि त्वा हविषा जीवनायकम् अज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिजग्राह यदि वैतदेनं तस्या इन्द्राग्निप्रमुक्तमेनम् मुञ्चामि त्वा हविषा जीवनायकम् अज्ञातयक्ष्मादुतराजयक्ष्माल् ग्राहिर्जग्राह यदि वैतदेनम् तस्या इन्द्राग्निप्रमुक्तमेनम्